श्रीमद्भागवत् महापुराणं दशं स्कन्धम् कथा शेषोकुवाच एकदोपवनं राजन् जग्मुनयदुकुमारकाः विहर्तुं शाम्ब प्रद्युम्न तत्र विचिन्वन्तः जलं निरुदके कूपे ददशु सत्त्वमद्भुतं कीकलाशं गिरिनिभं दीक्ष्य विस्मितमारसाः तस्य चोद्धरणे यत्नं चक्रुस्ते कृपयान्विताः चर्मजेतान्तवैपाशै बद्ध्वा पतितम् अर्भकाः नास कुवन् समुद्धरतं कृष्णाया चक्षुरु तत्रागत्या रविन्दाक्षो भगवान् विश्वभावनः भिक्षोज्जहार वामेन तं करेण शलीलया स उत्तमश्लोकराभिमेष्टो विहाय सद्य किकलाशरूपं सन्तप्तचामीकरचारुवर्ण स्वर्ग्यद्भुतालङ्करणाम्बरस्रख पप्रक्षद्विद्वानपि तन्निदानं जनेषुभिख्यापयितुं मुकुन्दः कस्मं महाभागवरेण्यरूपो देवोत्तमं त्वां गणयामि नूनं दशामि मां वा कतमेन कर्मणा सम्प्रापितोऽस्य तदहर्ह सुभद्र आत्मानमाख्याहि विवेस्य तां नो यन्मन्यसेन च मुमद्रभक्तुम् शेषु उवाच यति स्म राजा सम्पृष्ट कृष्णेनानन्दमूर्तिना माधुरम् प्रणिप्रत्याह करीटेनार्कवर्चसाम् ऋगुवाच ऋगो नाम नरेन्द्रोऽहम् इक्ष्वाकूतनय प्रभो दानि स्वाख्यायमानेषु यदि ते किं नु ते विदितं नाथ सर्वभूतात्मसाक्षिणः कालेनाव्याहतद्दृशो वक्षेथा पीतवाव्ययाम् यावत्यसिकता भूमिर्यावत्यो दिवितारकाः यावत्यो वर्षधाराश्च तावतीर ददागाः न्यायार्जितारूप्यख सादुकूलमालाभरणा ददावहं स्वलङ्कृतेभ्यो गुणशीलवद्भ्य सीदत्कुटुम्बेभ्य ऋतव्रतेभ्य तपसुतब्रह्मवदान्यसद्य प्रादां युवभ्यो द्विजपुङ्गवेभ्य गोभूहिरन्यायतन्ना स्वहस्तिनः कन्यासदासीस्तितुं सांसि रत्नानि परिक्षतान् रथान् इष्टं च यज्ञैश्चरितं च पुरुतं कस्यचिन्द्रिजुमुख्यस्य भ्रष्टा गोर्ममगोधने तं पृक्ता विदुषा सा च मया दत्वा दुजातये तां नीयमानां तपस्वीमीं चिन्तां नियमानां तस्वामी दृष्टभोवाच ममेति तं ममेति प्रतिग्राह्याः निगो मे दत्तवानिति विप्रौ विदमानौ मामचितुष्वार्थसाधको भवान् दातापहर्तेति तच्छ्रुत्वा मे भवद्भ्रमः अनुनीताबुभौ विप्रौ धर्मकृच्छगतेन वै गवां लक्षं प्रकृष्टानां दास्याम्येषा प्रदीयताम् भवन्तावनुगृहीतां किङ्करस्याविजानतः समुद्धरत मां कित्पतन्तं निर्येषुचौ नाहं प्रतिक्षे वै राजन्नित्युक्त्वा स्वाम्यपाक्रमन् नाद्यद्गवामप्युतमिच्छामित्यपरो ययौ एतस्मिन्नन्तरे या मे दूतैनीतोऽयमक्षयं यमेन प्रेष तत्राहं देवदेव देव जगद्पते पूर्वं तम् अशुभं भुङ्क्षेताहो निपते शुभं नांतं दानस्य धर्मस्य पश्ये लोकस्य भाश्वतः पूर्वं देवाशुभं भुञ्ज इति प्राहपतेति स तावद्राक्षमात्मानम् किक्लासम् पदन् प्रभो ब्रह्मण्यस्य वदान्यस्य तव दासस्य केशव नृतिर्नाद्यापि विध्वस्ता भवः सन्दर्शनार्थिनः विभोक्षिपथ परात्मा योगेश्वरे श्रुतिदिशा मलिषिद्विभाव्यः साक्षात् अथोक्षजम् उरुव्यसनान्थबुद्धे स्यान्वेनुदृश्यैह यस्य भवापवर्ग देवदेव जगन्नाथ गोविन्द पुरुषोत्तम नारायणशिशिकेश पुण्यश्लोकाच्युताव्ययम् अनुजाने हि मां कृष्णयान्तम् देवगतिं प्रभो यत्र क्वापि सतस्येतो भूयान्वे त्वत्पदाः पदम् नमस्ते सर्वभावाय ब्रह्मणे नन्दशक्तये कृष्णाय वासुदेवाय योगानां पतये नमः इत्युक्त्वा तं परिक्रम्य पादौ स्पृष्ट्वा शुमौलिनाम् अनुज्ञातो विनां विमानाग्रयम् आरुहन् पश्यतां नृणां कृष्णपरिजनं प्राह भगवान् देवकीसुतः ब्रह्मण्यदेवो धर्मात्मा राजन्यानानुशिक्षयन् दुर्जरं बत ब्रह्मस्वं मुक्तमग्नेर्मगपि तेजीयसोऽपि कुमुतराज्यामीश्वरमानिनां नाहं हालाहलं मन्ये विषं यश्च प्रतिक्रियां ब्रह्मस्वम् हि विषम् प्रोक्तं नास्य प्रतिविधिर्भुवि हेनास्ति विषमत्तारं वह्निरद्भिः प्रशाम्यते कुलं समूलं दहति ब्रह्मस्वारळीन् पावकः ब्रह्मस्वं दुरन्नुज्ञातं मुक्तं हन्त्रे च पूरुषम् प्रसयतु बलाद्भुक्तम् दस्पुर्वान् दसापरान् राजानो राजलक्ष्म्यान्धानात्मपातं विचक्षते निर्यं येऽभिमन्यन्ते ब्रह्मस्वम् साधु बालिताः गृह्णन्ति यावत् विप्राणाम् धृतिवृत्तीनाम् वदान्यानाम् कुटुम्बिनाम् राजानो राजकुल्यास्य तावतोनिरङ्कुशाः कुम्भीपाके सुपच्यन्ते ब्रह्मदायापहारिणः स्वदत्ताम् परदत्ताम् वा ब्रह्मवृत्तिम् हरेच्चयः षष्टिवर्षिसहस्राणि विष्ठायाम् जायते कृमिः न वेवं ब्रह्मधनम् भूयाद्यद्ग्रीन्द्रध्वाल्पायुसोदरा पराजिताश्रिता राज्या भवन्त्युद्वेजिनोभयः वृत्तम् कृतागसमपि नैव दुह्यत मामकाः ग्रन्थम् बहुसां सपन्तं वा नमस्कृत नित्यसा यथाहं प्रणमे विप्राणनुकूलाम् अनुकालम् समाहितः तथा न मति यूयं च योऽन्यथा मे सदण्डभा ब्राह्मणार्थो ह्यप्रहितो हर्तारं त्वाति यत्यथ अजानन्तम् अपि श्येनं नृगं ब्राह्मणगौरिव एवं विश्राभ्य मुकुन्दो द्वारकौकशः पावन सर्वलोकानां विवेशनिजमन्दिरं ते श्रीमद्भागवते महापुराणे परमहिंसां शयितायां दसं स्कन्धे उत्तरार्धे निगोपाख्यानं नाम चतुष्षष्टितमोऽध्यायः